हरिः ओम् अग्नेस्तानुरा कृष्णवे त्वा सोमस्य तनुराधि कृष्णवेत्त्वा तिथेराधित्यमद् विष्णवे त्वाेनाय त्वा सोमभृते विष्णवे त्वाग्नये त्वा राय को भदे विष्णवे त्वा अग्नेर्जनित्र मधुब्रह्मणंश्च उपश्यस्यायुरसि कुरूरवा असि गायत्रेण त्वाच्छन्दसा मन्धामि तैस्तुहेन त्वाच्छन्दसा मन्दामि जागतेन त्वाच्छन्दसा मन्धामि भवतन्नः समनसौ सचेतसा वरेतसौ मार्त्यगुरिपूतं मार्त्यवधिञ्जातवेदसौ शिवौ अग्नावनिश्चरदि प्रविष्टीणाम्बुचो अभिरति पावाम् स नाः स्यो नाः सुयजाय देह देवेभ्यो हव्यपुं सदमप्रविच्छन्त्वा आपजये त्वा परिपजये गृह्णामि तनू अनाहितमस्यनाहिक्यं देवानामोदोनभियक्त्यभिरति वा अनभियक्ते न्यमञ्जसात्यमुपवेकु स्वीते माधाः अग्निव्रत वास्ते व्रत वाजा तव तनुर्यमयो मम तनुरेखा स नौ व्यजपदे व्रतान्यनुमे दीक्षान्दीक्षापतिर्मन्यतामनुतपस्पस्पतिः ख्या अगुषुरकुते देवसोमाप्यायतामिन्द्रायैकदनविदे आदुभ्यमिन्द्राहाप्यायतामात्ममिन्द्रायप्यायस्व आप्यायम सखी संया स्वस्ति से मजीयो येस्ताया प्रेजे भगाय ऋतमृतवादिभ्यो नमोद्याभ जाने सया तनुर्वरीहृता बृष्ठा उग्रं वचो अपावगी त्वे गं वचो अपावगी स्वाहा जाते अग्नेरजा हासजातनुर्वेष्ठा उग्रं वचो अपावगी त्वे गं वचो सुग्रम्बचो अपावयित्वेभम्बचो अपावयित्वा सप्ताय निमे वित्ताय निमेत्यवतान्मानाखितादवतान्मा व्यचिता तु विदेजनिर्नभुनामाग्ने अङ्गिर आयुना नाम्ने हि योष्याम्बृदिव्यामधितेना नाम नाम तन्नाम्वादघे विभेद निर्नभ नाने अर आयुना मृदिव्या मिर्तेनाथ स्वादघे विभेद निर्नभो नामाग्ने अङ्गिर आयुना नाम्ने हिरस्यतीयस्यां पृथिव्यामजिरतेनार्तन्नामर्ति यन्ते नत्वादेव अनुत्वादेव वीतये त्रिभुषदिदवत्नसाहि देवेभ्यः सर्पस ऋषदिवत्नसाहि देवेभ्यः शुण्डत्वदुपुजितवत्नसाही देवेभ्यः शुम्बस्मौ इन्द्रभोगत्वा वसुभिः पुरस्तात्पादु प्रचेतास्वा रुद्रैः पश्चात्पातु मनोजवा स्वादि देभदक्षिणताः पातु दित्यैर्तरतः पात्रीदमहन्तम्बार्बहृदाज्याह्निः श्रजामि दिग्जरि स्वाहाद् गुजस्याच्यवनिः स्वाहाजगुजद् ब्रह्मवणिः च वणिः स्वाहाज कुजगिर्प्रजावनी रायसोघवनिः स्वाहा ऋपुश्या वह देव्यजमा भूतेभ्य स्वात् ध्रुवो जीवृजीवीन्द्रपु ध्रुवकंद्रपुहाचुदिजीवंद्रपुहाग्नेुंजते मनपुष युंजते जि योग्य प्राप्त पृथ बृहस्थिता विहोत्रादघे वयुनाभिदेव इन्मही देवस्य धवितुः वरुषुतिः स्वाहा इदं वितृर्विचक्रमेत्रेधा दा निदे पदं समूहस्य पातु सुरे स्वाहा इरावती धेनुमती भूतगु सूर्यवशिनी यस्व नारोदगी मभितो ते दादृतपृथिवीमभितो मयूखैः स्वाहा देवश्रुतौ देवे क्वाभोघतं राजीप्रेतमध्वरं कल्पयन्ति पूर्वं यत्ययतं माजिभरतं स्वोष्ठमावददन् देवी ुजेश प्रजा मा दुपुष्ट चरमे धाम ब्रखाया विष्णुर्नुकं बी प्रवोच जाहा पार्थिवान्म में जायुतरकु कमीज्रमास्ते दूरगाष्णे जीवो वा वृत उत वा पृथिव्या महो वा वृत उरोरन्तर्क्ष्यातु उभा प्रयच्छ दक्षिणादो दश व्याद्विष्णवे प्रकृतविष्टव वेत् वीर्येन मृगो न भीमः पुटरो गृष्ठाहम् यस्योरुगु त्रिविक्रमणि क्वल् कियन्दि भुवनान् विष्वा विष्णोररातमधि विष्णोः सप्रेतो विष्णोः शूरद् विष्णोर्जुवोषि वैष्णवमधि विष्णवे त्वा देवश्चत्वा रवितुः ग्रसविष्णोर्बाहुव्याम्बुष्णोस्ताभ्याम् आददेनार्जहीदमहुं रक्षसां व्रीवा अभिवृन्तामि बृहन्नभि बृहद्र वा बृहतीमिन्द्राय वाचं वजो रक्षोहणं बलगहनं वैष्णवीमिदमहन्तं बलगं तिरामिदं मे निश्चो जममात्यो निजघानेदमहन्तं बलगं किरामिजं मे समानो जम समानो निजघानेदमहन्तं बलगं किरामिजं मे सबन्धुर्जम सबन्धुर्निजघानेदमहन्तं बलगं किरामिजं मे सजातो जम सजातो निजघानोत्कृत्य गिरामि स्वरा रविवराहा जनरारवि रक्षो हार्यमित्रारो हनु बलगहनाहा प्रोक्षाम वैष्णवन् रखो हनु बु बलगनु वनयामि वैष्णवान् रक्षो हनो बु वलगहनु वस्णामि वैष्णवान् रक्षो हणौ वां बलगहना उप ददामि वैष्णवी रक्षो हणौ वामबलगहनौ अर्जुहामि वैष्णवी वैष्णवमद्वैष्णवाष्ठों देवस्य त्वा रवितुः व्रगवेश्विनोर्बाहुव्याम्पूष्णो हस्ताभ्रह्म दीदा अभी वृंदा जबोजिजलाम्दे जबलाजीक्षा साय कृंठंतांडोका भदना पिते भदनमसी जीवकुस्तभान्तर्षं वृणदृगुंह स्व्यान्द्युतार स्वारुपो मिनोतु मित्रावरुणौ ध्रुवे न धर्मणा ब्रह्मवनि त्वा ध्रुवा विध्रुवो यं यजमानोऽस्मिन्नायतनि प्रजया पशुविर्भूयातु पृतेन द्यावावृथिवी पूर्जेथामिन्द्रस्यच्छ वीरजनस्यच्छाया परित्वा विर्वणु गिर भवन्तु विस्मताः वृद्धायुमनुर्ध्वयोरिष्टाभवन् दुष्टयाहम् इन्द्रस्य शूरजीन्द्रस्य ध्रुवो हि ऐन्द्रमधि वैश्वदेवमहि विभूरजप्रवाहणो निरजिव्यवाहनाहं स्वात्रोजप्रजेता स्तुतो विश्ववेदा उजिवधिकविरं भारिरदिबम्भ इरवस्योरभिरुवस्माञ्छुन्योरविमार्जाली याः सम्राडधि गृजानुः परिवद्यो जि पवमानो नभोदि प्रग्वा मृष्टो जि हव्यरुदनृतधामादिस्पृज्योतिः समुद्रोदिव्यता अजोत्येकपादहि स जिबुध्नो वागस्य इन्द्रमधिरदोषधृषस्मारौ मामाजन्ताप्तमध्वनामद्वदे प्रमादिरक्तिमेस्मिन् पदि देवयाने भूयान्मित्रस्य मां चक्षुवे क्षद्वमग्धयाः सगराः सगरास्तदगरेण नाम्ना रौद्रेणानिकेन पातमाग्नयाः विकृतमाग्नयो गोपायतमानमो वोतु मां हिग्ंसिष्ठो ज्योतिरद्विश्वरूपं विश्वे गान्धेवादाग्मुषमितो द्वग्ं सोमतनुद्भ्यो द्वेगोभ्योऽन्यहृदेभ्य उरुजन्ता स्वरुजगुस्वाहा युहाणो अतु राज्येतु स्वाहा अग्नेनयशुभधारायेत् अस्मान् विश्वामिदेवयुना निवृद्वान् युयोध्यमजुहुराण मेनो भूष्ठन्देन वपुतिम् विधेमो अय नो अग्निवरीवृणु स्वयं मृधा पुरातु अयम् नो अयुवाज सायूत दुर्जेखाण स्वाह पूर्षु विक्रमस्फूर्यायन स्त्री ऋतो ने वक्र प्रयत्न पदीस्वा देवसवितरे घटे सोमस्तगुरकस्ममात्त्वादभन् एत त्वम् देव सोमदेवो देवामुपागा इदमहम् मनुष्यान्तरायको स्वाहा निर्भरुणस्य पाषान्मुच्ये अग्ने ब्रगपास्ते व्रजपाजातव तनुरमजभूदेशास्त्वमवतनुस्तजभूधि यग्मुमयि यधायधन्नं व्रज वदे व्रतान्यनुमे दीक्षा दीक्षापति रमभुस्तानुतपस्तपतिः गुरुभिष्णु विक्रमस्पुरुक्षयानस्त्री हृताङ्ग्रजायो ने नेपीवप्रयत्नवदेर स्वाहा अत्यन्याम् अगान्नान्याम् उपादामर्वात्मा परेभ्यो विदम् परो हन्द्वा जुहामहे देववगे देवयज्ञायै देवास्ता देवयज्ञायै जुहन्ताम् पृष्टवे त्वाम् ओ भगेत्राय सदिते मै न अयगूहित्वा स्वदि प्रणिनाय महते सौभवाय अदस्वन्दे वदेशत बलिशो विरोह सहस्रबलिशाब् विवय गुरुहेम इति पञ्चमः